तत्र वानरराजाभ्यां मैन्देन त्रिविदेन च युयुधे दिवसान् सप्ता न च तौ विकृतिं गतौ ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः गच्छ पाण्डवशार्दूला रत्नान्यादाय सर्वशः अविघ्नमस्तु कार्याय धर्मराजाय धीमते ततो रत्नान्युपादाय पुरी माहिष्मतीं तत्र नीलेन चक्रे युद्धं नरर्षभः। रर्षभः पाण्डवः परवीरघ्नः सह देवः सैन्यक्षयकरं चैव प्राणानां संशयावहं चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ततो रथाः यानागाः पुरुषास्तवचानि च प्रदीप्तानि व्यदृश्यन्त सह तदा ततः सुसम्भ्रान्तमना बभूव नोत्तरं प्रतिवक्तुं च शक्तो भूजन जनमेजयवाचा, तिमर्थं उवाच किमर्थं भगवान् वह्निः प्रत्यामित्रो भवद्युधि सह देवस्य यज्ञार्थं घटमानस्य वै द्विजा तत्र माहिष्मती वासी भगवान् हव्यवाहनः श्रूयते गृहीतो वै पुरस्तात्पारदारितः नीलस्य राज्ञो दुहिता बभूवातीव शोभन साग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा व्यजनैर्धूयमानोऽपि तावत् प्रज्वलतेन सह यावत् चारु पुटौ वायुना न विधूयते ततः स ततो ब्राह्मणरूपेण रममाणो यदृच्छया चकमेतां वरारोहां कन्यामुत्पललोचनां तं तु राजा यथा शास्त्रमशासद्धार्मिकस्तदा प्रज्ज्वालततः कोपाद्भगवान् हव्यवाहनः तं दृष्ट्वा विस्मितो राजा जगामशिरसावनिम् ततः कालेन तां कन्यां तथैव हि तदा नृपः प्रददौ विप्ररूपाया वह्नये शिरसानतः प्रतिगृह्य च तां शुभ्रों तदा चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः वरेण छन्दयामासा तं नृपं सृष्टकृत्तमः अभयं स्वसैन्ये वै महीपतिः ततः प्रभृति ये केचिदज्ञानात्तां पुरी नृपाः जिगीषन्ति बलाद्राजं